चतुशीतिमोध्या वैशंपायन उवाच जरां प्राप्य यति स्वुर प्राप्य चि पुत्र जेष्ठ यदिब्रवीद वच युवाच जरावीच माता पलिता पर्यु का्योशनस शाप्न नृप्तस्म यौवने त्वम् यदो प्रतिपद्यस्व पाप्मानम् जरयासः यौवनेन चरेयम् विषयानहम् पूर्णे वर्षसहस्रे पुनस्ते यौवनम् त्वहम् दत्त्वा स्वम् जरयासः यदुर्वाच जरायाम् बहवो दोषाः पानभोजनकारिताः तस्माज्जरान्न ते राजन् ग्रहीष्य इति मे मतिः सितश्मश्रुर्निरानन्दो जरयाशिथिलीकृतः वलीसङ्गतगात्रस्तु दुर्दर्शो दुर्बलः कृशः अशक्तः कार्यकरणे परिभूतः स यौवतैः सहोपजीविभिश्चैव नाभिकामये सन्ति ते मत्तः प्रियतरान्ृप जराम् धर्मज्ञ तस्मादन्यम् वृणीष्व ययातिरुवाच यत्त्वम् मे हृदयाज्जातो वयस्वम् न प्रयच्छसि तस्मादराज्यभाक्तात् प्रजातव भविष्यति तुर्वसो प्रतिपद्यस्व पाप्मानम् जरयासः यौवनेन चरेयम् वै विषयांस्तव पुत्रक पूर्णे वर्षसहस्रे तु पुनर्दास्यामि यौवनम् स्वम् चैव प्रतिपत्स्यामि पाप्मानम् जरया सह तुर्वसुरुवाच न कामये जरान्तात कामभोगप्रणाशिनीम् बलरूपान्तकरणीम् बुद्धिप्राणप्रणाशिनीम् ययातिरुवाच यत्त्वम् मे हृदयाज्जातो वयस्वम् न प्रयच्छसि तस्मात् प्रजा तुर्वसो तव यास्यति सङ्कीर्णाचार धर्मेषु प्रतिलोमचरेषु च पिषिता शिशुचान्त्येषु मूढ भविष्यसि गुरुदार तिर्यज्ञोनिगतेषु च पशुधर्मेषु पापेषु म्लेच्छेषु त्वम् भविष्यसि वैशम्पायिन उवाच एवम् चतुर्वसुम् शप्त्वा ययातिः सुतमात्मनः शर्मिष्ठायाः सुतम् द्रुह्यमिदम् वचनमब्रवीत् ययातिरुवाच द्रुह्यो त्वम् प्रतिपद्यस्व वर्णरूपविनाशिनीम् जराम् वर्षसहस्रम् मे यौवनम् त्वम् पूर्णे वर्ष सहस्रे तोनर्दा यौवनम्व चादा भूय पाप्न जरयासह दुह्युवाच न गज न रथं नाश्व जीर्णो भुंक्न च्रियं जरा भी काम युवाच यत्त्वम् मे हृदयाज्जातो वयस्वम् न प्रयच्छसि तस्माद्द्रुह्यो प्रियः कामो न ते क्वचित् यत्राश्वरथमुख्यानामश्वानाम् च हस्तिनाम् पठिकानाम् च गर्दभानाम् तथैव च वस्तानाम् च गवाञ्च शिबिकायास्तथैव च उडुपप्लवसंतारो यत्रनित्यं यत्र भविष्यति अराजा भोजशब्दम् त्वम् तत्र सान्वयः ययातिरुवाच अनोत्वं प्रतिपद्यस्व प्रतिपद्य स्व पाप्मानम् चरया सः एकम् तु चरेयम् यौवनेन ते अनुरुवाच जीर्णः शिशुवदादत्ते न जुहोति च कालेऽग्निम् ताम् नाभिकामये ययातिरुवाच यत्त्वम् मे हृदयाज्जातो वयस्वम् न प्रयच्छसि जरा प्रोक्तस्तस्मात् त्वम् प्रतिपत्स्यसे प्रजाश्च यौवन प्राप्ता विनशिष्यन्त्यनो तव अग्निप्रस्कन्दनपरस्त्वम् भविष्यसि ययातिरुवाच पुरोत्वम् मे प्रियः पुत्रस्त्वम् भविष्यसि जरावली च माम् तात पलितानि च पर्यगुः काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने पुरोत्वम् प्रतिपद्यस्व पाप्मानं जरया सः कञ्चित्कालम् चरेयम् वै विषयान् वयसा पूर्णे वर्षसहस्रे तु पुनर्दास्यामि यौवनम् स्वम् चैव प्रतिपत्स्यामि पाप्मानम् जरयासः वैशम्पायन उवाच एवमुक्तः प्रत्युवाच पूरुः पितरमञ्जसा यथात्थमाम् महाराज तत्करिष्यामि ते वचः गुरोर्वै वचनम् पुण्यम् गुरुप्रसादात्त्रैलोक्यमन्वशा सच्छतक्रतुः गुरोरनुमतिम् प्राप्य सर्वान् कामानवाप्नुयात् प्रतिपत्स्यामि ते राजन् पाप्मानम् जरया सह गृहाण यौवनम् मत्तश्चरकामान्यथेप्सितान् जरयाहम् प्रतिच्छन्नो वयोरूपधरस्तव यौवनम् भवते दत्त्वा चरिष्यामि यथात्थ माम् ययातिरुवाच पूप्रीतोऽस्मि ते वत्स प्रीतिश्चेदम् ददामि ते सर्वकामसमृद्धा ते प्रजाराज्ये भविष्यति एवमुक्त्वा स्मृत्वा काव्यम् महातपाः सङ्क्रयामास जराम् तदा पूरौ महात्मनि इते श्री इतिमहाभार आदिपर्व संभवपर्वि युपाख्या चतमोध्याय